नारायणीयं दशकं फोर्टि त्रि मीटर् वसन्ततिलकम् त्वामेकदा गुरुमरुत्पुरनाथवोढुं गाढाधिरूढ गरिमाणमपारयन्ति मादा निधायशयने शयने किमिदं वदेदि ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का तावद्विदूरमुपकर्णिदघोरघोषव्याजृम्भिपांसुपडली परिपूरिदाशः वात्या वपुस वा किल दैत्यवरतृणावर्ताख्यो जहार जनमानसहारिणम् त्वाम् उद्धा तिराहदृष्टिपा द्रष्टुम्यकुशले पशुपाले हाबकुप्ता माभवंदमिलोक्य मा दृश्यम रोद तावत्सदानभवरोऽपि च दीनमूर्तिर्भावत्कभारपरिधारणलूनवेगः सङ्गोचमाप तदनुक्षतपां सुखोषे कोषेव्यदायद भवज्जननी निनादः रोदोपकर्णनवशादुपगम्य क्रन्दत्सुनन्दमुखगोपकुलेषु दीनः त्वान्दानवस्त्व किलमुक्रिकरं मुमुक्षुस्त्वय्य प्रमुञ्जति पपादवि यत्प्रदेशाद रोदाकुलास्तदनु गोपगणा बहिष्टपाषाण पृष्ठभुविदेहमधिस्तविष्टं परिपिष्ट वक्षस्यक्षीण मेव च भवन्तमलं हसन्तम् ग्रावप्रपादपरिपिष्टगरिष्ठदेहभ्रष्टासु दुष्टदनुजोपरि दृष्टभासम् भवन्दमेत्य भवन्तमेत्य गोपादधुर् गिरिवरादिवनीलरत्नं एकैकमाशु परिगृह्य निकामनन्दन्नन्दादिगोप परिरब्धविजुम्पिताङ्गम् आदादुकामपरिशङ्कित गोपनारीहस्ताम्बुजप्रपदिदं प्रणोमो भवन्तं भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविन्द एव परिपालयतात् इत्यादि मादरपिदृप्रमुखैस्तदानीं सम्प्रार्थितस्त्वदवनाय विभोत्वमेव त्वमेव वादात्मगन्धनुजमेव मयि प्रधून्वन्वादोद्भवान् मम किमुनो धुनोषि किं वा करोमि पुनरप्यनिलाशयेश निःशेषरोगशमनं मुहुरर्थये त्वां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द